मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं फोर्टि नवमखण्डमाहात्म्यवर्णनम् श्रीगणेशाय नमः सूत उवाच अयं ते कथितपूर्णखण्डो योगात्मकः परः नवम सर्वदा साक्षात् पूर्णयोगप्रदायकः एकस्य श्रवणेनैव खण्डस्यास्य महामदे सम्पूर्णम् उद्गलस्थं यद्फलं मानवः न शक्यते मया विप्रमाहात्म्यं खण्डसम्भवं यत्र योगपदिपूर्णो वर्णितो गणनायकः चतुर्वेदभवं पुण्यं श्रवणेन भविष्यति साङ्गैः साधनकैश्चास्य खण्डस्यात्र न संशयः अष्टादशपुराणान्युपपुराणानि यस्तदा शृणुयास नरस्तस्मादनन्तं त्वस्य संश्रवात् शब्दब्रह्ममयान्नाशास्त्राणि निःसृतानि तु तेषां श्रवणदो जन्तुरस्यानन्दं फलं लभेद तीर्थानि सकलान्येव ह्यः कुर्याद्विधिसंयुतः तेभ्यो नन्दगुणं पुण्यमस्य श्रवणदो लभेद क्षेत्राणि विविधान्येव ह्यः कुर्याद्भक्तिसंयुतः तेभ्योऽस्य श्रवणेनैव लभेदा संख्यकं फलं दानानि विविधान्येव ह्यः कुल्यान् मानवोत्तमः अस्य श्रवणमात्रेणानन्दं तेभ्यः फलं लभेद यज्ञान् कुल्या च सम्पूर्णान् यथा शास्त्रप्रमाणदः तेभ्यो नन्दं फलं प्रोक्तमस्य श्रवणमात्रदः इष्टापूर्तादिकान्येव नानासत्कर्मकानि यः प्रफुर्यात् सफलं तेभ्यो नरो नन्दं लभेच्छ्रवद बहुनात्र किमुक्तेन नानेन सदृशं भवेद साधनं योगखंडेन योगो यत्र सम्पूर्णो योगकण्ठस्थे कधिदो व्यासवर्णितः अतः परं गमिष्यामि स्वाश्रमं चते सम्पूर्णं मौद्गलं तुभ्यं कधिदं सर्वसिद्धिदं अधः परं च नास्ति शौनकते नमः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमेखंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ओ